ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं 20 अधो लोकवर्णनं सूत उवाच अधप्रमाणमूर्ध्व च वक्ष्यमाणं निबोधत पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् अनन्ता धातवो ह्येदं व्यापकास्तु प्रकीर्तिताः जननी सर्वभोधानां सर्वसत्त्वधराधरा नानाजनपदाकीर्णा नानाधिष्ठानपत्तना नानानदनदीशैला ना ना ना ना ना नैकजातिसमाकुला ना अनन्तागी यदे देवी पृथिवी बहुविस्तरा नदी नदसुध्रस्ता स्तन्था क्षुद्राश्रयस्थिताः पर्वताकाशसंस्थाश्च अन्तर्भूमिगादाश्च याः आपोनन्ता हि विज्ञेयास्तथाग्निः सर्वलोकगः अनन्तः पठ्यते चैव व्यापकः सर्वसम्भवः तथाकाशमनालेख्यं रम्यं नानाश्रयं स्मृतम् अनन्तं पठ्यते चैव वायुश्चाकाशसम्भवः आपृथिव्यामुदके पृथिव्युपरि संस्थिताः आकाशश्चापरमथ पुनर्भूमिः पुनर्जलं एवं मदमनं तस्य भौतिकस्य न विद्यते सोपचिता भूमिश्चैव निबोधत जलमधा भूमिजलमशाया परंपरा विख्यादा स्थितरे श्रादुविख्या सप्तमेंतले दशयोजनसहस्रमेकौमसातल साधुभिपरीसंख्या विस्तर प्रथम नाम सुतल तु ततःपरम ततस्तलातलं विद्या दतलं बहुविस्तरं तदोर्वाश्च तलं नाम परतश्च रसातलं ये देशामप्यधो भागे पादालं सप्तमं स्मृतं कृष्णभौमश्च प्रथमो भूमिभागप्रकीर्तिदः पाण्डुभूमिर्द्वितीयस्तु तृदियो नीलमृत्तिकः ीदभौमश्च दुर्धस्तु पञ्चमः शर्करामयः षष्ठः शिलामयो ज्ञेयसौवर्णसप्तमः स्मृतः प्रथमेऽस्मिन् स्थले ख्यातमसुरेन्द्रस्य मन्दिरं नमु महानादस्य चालयम् पुरं च शङ्घुकर्णस्य कबन्धस्य च मन्दिरं निष्कुलादस्य च पुरं प्रहृष्टजनसङ्कुलं राक्षसस्य च भीमस्य शूलदं तस्य चालयम् लोहिताक्षकलिङ्गानां नगरं श्वापतस्य च धनञ्जयस्य च पुरं नागेन्द्रस्य महात्मनः नागस्य नगरं नाग से नगर कौशिकसा नागदानवसा जेयानी प्रथम कृष्णभमे संशय तीये सुतले विप्रा दैत्न्द्र से रक्षस महाजंभ से तो तथा नगर प्रथम से तो इयग्रीवस्य कृष्णस्य निकुम्भस्य च मन्दिरम् शङ्खख्यस्य च दैत्यस्य नगरं गोमुखस्य च राक्षसस्य च नीलस्य मेघस्य कथनस्य च आलयं कुकुपादस्य महोष्णीषस्य चालयं कम्बलस्य च नागस्य पुरमश्वधरस्य च कद्रूपुत्रस्य च पुरं तक्षकस्य महात्मनः एवं पुरसहस्राणि नागदानवरक्षसां द्वितीयेऽस्मिन् तले विप्राः पाण्डुभौमेन संशयः तृतीये तु तलेख्यादं प्रह्लादस्य महात्मनः अनुद्रादस्य च पुरं पुरमग्निमुखस्य च तारकास्य च पुरं पुरं त्रिशिरसस्तथा शिशुमारस्य च पुरं त्रिपुरस्य तथा पुरं पुरञ्जनस्य दैत्यस्य हृष्ट हुष्टजनाकुलं चवनस्य दुविज्ञेयं राक्षसस्य च मन्दिरं राक्षसेन्द्रस्य च पुरं कुम्भिलस्य खरस्य च विराधस्य च क्रूरस्य पुरमुल्कासुखस्य च हेमकस्य च नागस्य तथा पाण्डुरकस्य च मणिनागस्य च पुरं कपिलस्य च मन्दिरं नेदकस्यो रगपदोर्विशालाक्षस्य मन्दिरम् एवं पुरसहस्राणि नागानवरक्षसां तृतीयेऽस्मिं स्थले विप्रा नीलभौमेन संशयः चतुर्थे दैत्यसिंहस्य कालनेमेर्महात्मनः गजकर्णस्य च पुरं नगरं कुञ्जरस्य च राक्षसेन्द्रस्य च पुरं सुमालेर्बहुविस्तरम् मुञ्जस्य लोकनाथस्य वृकवक्त्रस्य चालयं बहुयोजनविस्तीर्णं बहु, बहु पक्षिसमाकुलं नगलं वैनतेयस्य चतुर्थेस्मिन्नसातले पञ्चमे शर्करा भौमे बहुयोजनविस्तरं विरोजनस्य नगरं दैत्यसिंहस्य धीमतः वैद्युदस्याग्निजिह्वस्य हिरण्याक्षस्य चालयं पुरञ्च विद्युज्जिह्वस्य राक्षसेन्द्रस्य धीमदः सः मे च पुरं राक्षसेन्द्रस्य मालिनः किर्मीरस्य च नागस्य स्वस्तिकस्य जयस्य च एवं पुरसहस्राणि नागदानव रक्षसां पञ्चमेऽस्मिं स्थले ज्ञेयं शर्करा निचये सदा षष्ठे तले दैत्यपते केसरे नगरोत्तमं सूपर्वणः पुलोम्नश्च नगरं महिषस्य च राक्षसेन्द्रस्य च पुरम् सुरोषस्य महात्मनः तत्रास्ते सुरमापुत्रशतशीर्षो मुदायुधः महेन्द्रस्य सखा श्रीमान्वात्सुकिनाम नागराड एवं पुरसहस्राणि नागदानवरक्षसां षष्ठे तलेऽस्मिन्विख्यादे शिलाभौमे रसातले सप्तमे दुतले ज्ञेयं पादाले पुरं नर नारी असुराशी नारीगणाकुम असुराशिष पूर्ण सुखितुभि देत्यस्य से नगरं महाद अनेकैर्दीपुरा महा समदीर्णपुरै तदैव नागनगरैर्दुतिमद्भिः सहस्रशः दैत्यानां दानवानां च समुदीर्णैर्महापुरैः उदीर्णैराक्षसावासैरनेकैश्च समाकुलं पातालान्ते च विप्रेन्द्राविस्तीर्णबहुयोजने आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः धौद शङ्खोदरवपुर्नीलवासा महाबलः विशालभोगो द्युतिमां चित्रमाल्यधरो बली रुक्मशृङ्गावदेन दीप्तास्येन विराजता प्रभुर्मुखसहस्रेण शोभते चैककुण्डली स जिह्वालया दीप्त लोलज्ज्वा नलार्चिषा ज्वाला परक्षिधकस्ये सद नेत्रसहस्रेण द्विगुणेन विराजता बालसूरियाताम्रेण शरीरस्निग्धपंडुना तस्ुवर्ण से नेत्र विराज तरुणादित्यमालेवश्वेतपर्वतमूर्धनि विकरालोच्छ्रिततनुर्लक्ष्यदे शयनासने विस्तीर्ण इव मेदिन्यां सहस्र शिखरो गिरिः महान्नागैर्महाभोगैर्महाविज्ञैर्महात्मभिः उपास्यते महातेजा महानागपतिस्वयं स सराजा सर्वनागानां शेषो नन्दो महाव्युदिः सा वैष्णवी व्यवहृतिर्मर्यादाया व्यवस्थिता सप्तैव मेदे कथिता व्यवहार्या रसतलाः देवासुरमहानागराक्षसाध्युषिताः सदा अथः परमनालोकमगम्यं सिद्धसाधुभिः देवानामप्यविदिदं व्यवहारविवक्षया पृथ्वम्बुवग्निवायूनां नभसश्च द्विजोत्तमाः महत्त्वमृषिभिश्चैवम् वर्ण्यते नात्र संशयः अध ऊर्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुशृङ्गपादेऽो लोकवर्णनन्नाम विंशतितमोऽध्यायः ओ